मन्त्रपुष्पम् श्रीगुरुभ्यो नमः हरिः ॐ भद्रं कर्णेभिः शृणुजावदेवाः भद्रं पश्ये माक्षभिर्यजत्राः चिरैरङ्गैष्टुवाघंसस्तनूभि व्यसेम देव हितैजदायुः स्वस्ति न इन्द्रो वृद्धस्रवाः स्वस्ति न पूषा विश्वमेधाः स्वस्ति नस्ता रक्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ योपां पुष्पं वेद पुष्पवान् प्रजावा आन् पशुमान् भवति चन्द्रमावा अपां पुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेद यो पामायतनं वेद आयतन् आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति यो ऽग्निरायतनं आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेद यो पामायतनं वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेद यो पामायतनं वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतन्वान् भवति योमस्य तपत् आयतनं वेद आयतनवान् भवति आपो वा अमोस्य तपत् आयतनम् आयतनवान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनं वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् आयतनम भवति य एवं वेदा। यो पामायतनं वेद आयतनवान् भवति नक्षत्राणि वा आयतनवान् भवति यो नक्षत्राणामायतनं वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद यो पामायतनं वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति य पर्जन्यस्यायतनं वेद आजतनुवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद यो पामायतनं वेद आयतनवान् भवति संवत्सरो वा आयतनवान् भवति यस् संवसरस्यायतनं वेद आयतनवान् भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद यो ओसुनामं प्रतिष्ठितां वेदं प्रत्यव तिष्ठति राजाधिराजाय प्रसय्य साहिने ए नमो वयं वैश्रवणाय कुर्मयी समे काम कामान् कामकामाय मय्यं कामे सरोवैषमणो दधातु कुबेराय वैशमणाय महाराजाज नमः ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ